मन्त्रपुष्पं श्रीगुरुभ्यो नमः हरिः ॐ भद्रं कर्णेभिषृणुयामदेवाः भद्रं पश्ये माठभिर्यजत्राः शिरैरङ्गै एतुष्टुवागंसस्तनूभिः जसेम देवहितै यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदा स्वस्ति नस्ताक्षो अरिष्टरेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ योपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावा आन् पशुमान् भवति य एवं वेद यो पामायतनं वेद आयतनमान् भवति अग्निर्वा अपामायतनम् आयतनमान् भवति योऽग्निरायतनं वेद आयतनमान् भवति आपो वा अग्नये अग्नेरायतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनमान् भवति वायुर्वा अपामायतनम् आयतनवान् भवते यो वायोतनं वेद आयतनवान् भवति आपो वायुरायतनम् आयतनवान् भवति य एवं वेद यो वेद आयतनवान् भवति असौ वैतपन्नपामायतनम् आयतनवान् भवति योमुस्य तपत् आयतनं वेद आयतनवान् भवति आपो वा अमुष्यदपद आयतनम् आयतनवान् भवति द एवं वेद योपामायतनं वेद आयतनवान्भवति चन्द्रमा वा अपामायतनम् आयतनवान्भवति यश्चन्द्रमस आयतनं आयतनवान वेद आयतनवान् भवते आपो वै चन्दमस आयतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनवान् भवते रक्षात्राणि वा अपामायतनम् आयतनमान् भवति यो नक्षत्राणामायतनं वेद आयतनवान् भवति आपोवैनक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यपर्जन्यस्यायतनं वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद यो पमायतनं वेद आयतनवान् भवति तम्बस्सरो वा अपमायतनम् आयतनवान् भवति यस्संवत्सरस्यायतनं वेद आयतनवान् भवति दापो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद यो ॐ सुनावं वेद प्रत्येव ॐ राजाधिराजाय प्रसय ए नमो वयं वैश्रवणाय कुर्महे तमेकामान् कामकामाय मय्यं कामेश्वरो वै एश्रमणो ददातु कुबेराय वैश्रवणाय महाराजाय नमः ॐ शान्ति शान्ति शान्ति हरिः ॐ दस्सत् श्रीरामकृष्णार्पणमस्तु